मुद्गलपुराण खंडम 3, महोदरचर अय 19, आश्रमर्णनम श्रीगणेशा नम नरनायोजु तदह क्षौर द्विज्र पतृमा दृपरायण स्वगृहे वासमातिष्ठे द्विजदेवपरायणः ऊनेन वयसायुक्तां कुलशीलादिसंयुतां सर्वावयवसम्पूर्णां वधूं स वरयेत्तदः ऋदुगामी भवेच्चैव सन्दानार्थं कलत्रवान् देवविप्रातिधिप्रेप्सु सन्धिष्ठेत्स गृहाश्रमी यजनं याजनं चैव दानमध्ययनं तथा प्रदिग्रहोऽध्यापनं च षट्कर्माणि समाचरेद स्नानं सन्ध्यां जपं होममादिभ्यं देवतार्चनं स्वाध्यायं वैश्वदेवं वै गृही नित्यं समाचरेत चतुर्थीव्रतमाद्यं च कर्तव्यं त्वाश्रमस्थितैः तदन्यानि कर्तव्यानिविशेषतः चतुर्थी व्रतहीनस्य नाधिकारो व्रतेषु वै सदाशौची भवेन्नूनं चतुःपदविवर्जितः शुक्ले चतुर्थीकायां वै योन्नं भुङ्क्ते महामुने मांसाहारी मदो नूनं तथा भवति नारकी अग्निहोत्रं नित्यं तथा श्राद्धादिकं मुने सदा दयापरो भूत्वा सन्दिष्टेद्गृहसंस्थितः अभक्ष भक्षणं क्वापि न कुर्यात्स गृहाश्रमे शौचाचारसमायुक्तो भवेन्नियमसंयुतः तर्पणं पितृदेवानां मुनीनां च समाचरेद पञ्चयत्नादिगं सर्वं नित्यं शास्त्रे प्रकीर्तितम् स्वस्वतत्ता प्रमाणेन कर्तव्यं गृहमेधिना तत्र धर्ममनुप्रोक्तं तं शृणुष्व महामुने अर्धेन पुत्रधारादींश्चतुर्धां शेन सौहृदं चतुर्धां शेनदेवादीन् तोषयेच्च गृहाश्रमी एवं नानाविधं धर्मं गृहस्थश्च समाचरेत् तृतीयभाग आयुष्य युक्तः सोऽपि वनी भवेद संस्थाप्य दारान्पुत्रादिसमीपे वा सह वनं गच्छेत्स धर्मार्थं तपस्वी कर्मसिद्धये पुत्रा जाताश्च अपितद्वनगो अपि तद्वनगो भवेद तपस्तत्र प्रकुल्यात् स फलकन्दादिभक्षयन् वन्येन चाग्निहोत्राद्यतिथीनां पूजनादिकम् समाचरेद्वनस्तश्च नानातपसि संस्थितः समीपे संस्थिता पत्नी मैथुनं न समाचरेत मनसापि महाभागवानप्रस्थः कदाचन वायुभक्षाधिकं कुर्याद्वायुसन्धानमेव सः प्राणायामैश्च विप्रेष आचरेद्वनसंस्थितः पञ्चाग्निसाधनं ग्रीष्मे हेमन्दे जलवासनं वर्षास्वाकाशवासी स वानप्रस्थो भवेत् तथा सङ्कटे च वनस्थः सग्रामे कदा प्रवेशोऽपि कर्तव्यो ग्रामे तेन महात्मना एवं नानाविधान्धर्मान्वानप्रस्तग आचरेद चतुर्धांशं यदा तस्यायुष्यं विद्येतभो मुने चतुर्धांशायुषिस्थादा संन्यासं ससमाचरेद तदा स्त्रियापि तस्यैवा शां त्यक्त्वा ज्ञापितो भवेद् आज्ञा तस्मै प्रदातव्या स्त्रिया चैव विशेषतः स्वयम् तपसि देहं स्त्री शोषयेन्मरणावधि अग्निहोत्रं स्वदेहे सवात्मन्येकस्वभावतः कृत्वा च निःस्पृहो भूत्वा विचरेत्पृथिवीमिमाम् अहं योगभूमिक्रमेण च योगी भवति सन्न्यासी चित्तभूमिविवर्जितः कर्मादिन्याससंयुक्तो विचरेद्यत्र तत्र वै ग्रामै करात्र वासी स भवेन्यासपरायणः द्वन्द्वभावविहीनः सभिक्षाम् नित्यं समाचरेद करपात्री भवेद्वापि सन्न्यासी च सदा मुनि करपात्री स संन्यासी ग्रासे ग्रासे महामुने अश्वमेधाधिकं पुण्यम् प्राप्नोत्यत्र न संशयः चादुर्मास्येवस्येच्चैव तीर्थक्षेत्रादिभूमिषु जिदेन्द्रियो जिदप्राणो निःसङ्गः सर्वकर्मसु अहिंसापरमो धर्मः संन्यासानां विशेषतः तृणादिकं च विप्रेष्य छेदयेन्न कदा न च त्रिदण्डीयस्तु सन्न्यासी कुडीचक उदाहृतः विधिं तत्र प्रवक्ष्यामि शृणुत्वं मुनिसत्तम स्वधर्माचरणं नित्यं देहदण्डः स उच्यते दे। मौनं वाचामयं दण्डो द्वितीयश्च प्रकीर्तिदः सर्वत्र रसहीनं च मानसं वर्तते यथा कर्तव्यं तत्तथातेन मनोदण्डः प्रकीर्तिदः कुटीं देहमयीं योगी चालयेद्बिम्बभावतः ब्रह्मणि ब्रह्मभूदश्च सकुटीचक उच्यते ततो दगो योगी द्विदण्डी मुने भवेन्मुने देहदण्डविहीनत्वात् स्वेच्छाचारी विशेषतः एकगर्तस्तमुदकं सर्वै सङ्गृह्यते यदा गर्ते दोषो नराणां वै विद्यते न कदाचन तथात्मा देहसंस्थश्च चतुर्देही विकारतः भिन्नः सदा न तद्दोषैर्लिप्यदे क्वापि निश्चितम् सोऽहं ब्रह्मणि संस्थश्च भेदहीनो महामुनिः बहुदघः सन्निस्सङ्गो देहादिभ्य प्रकीर्तितः ततो हंसाश्रमः प्रोक्तो मानसे दण्डधारकः देहवाणी दण्डहीनस्वेच्छाचारी मदो मुने देहदेहि समयोगे ब्रह्मबोधात्मकं मदं तत्र संस्थस्वयं योगी द्विविधे तन्मयो भवेद द्वन्द्वं जलमयं प्रोक्तं देहदेहिस्वरूपकं तत्र दुग्धं भवेद्ब्रह्म हंसस्तद्ग्राहको भवेत् ततः परम हंसश्च ज्ञानदण्डपरायणः देहवाणीमनोभूतैर्दण्डैर्हीन प्रकीर्तितः देहदेहिमयं ब्रह्मभ्रान्तियुक्तं विशेषतः तच्च प्रोक्तं सविषयं हंसकर्मपरायणं सदा साक्षिस्वरूपं यत्परं ब्रह्ममहामुने तत्र संस्तो महायोगी त्रिविधेषु विभागदः नाहं देहो न ना देहस्थो देहदेहिमयो न वै सदा साक्षिस्वरूपस्थो ज्ञानानन्दमयो भवेद यद्यज्ञानं भवेत्तस्य सर्वं विकारजम् तत्यक्त्वा द्वन्द्वहीनश्च स्वेच्छाचारी भवेत् स्वयं चतुर्विधोऽयं संज्ञासस्तत्राश्रमसमाश्रितः अहं ब्रह्मेदि योगेन ब्रह्मभूतो भवेन्नरः मनसारसयुक्तेन विषयादिशुभो मुने सन्न्यासश्च कृतो येन नारकः स भविष्यति कपर्दिका यदा महामुने तदा सहस्रवर्षाणि कुम्भीपाके पते ध्रुवम् स्त्रीसम्भोगसुखे चाच्चेत्तस्य वै मानसे क्षणम् वेच्चेत्तदा विप्र गोसहस्रवधी भवेद कृते मनःसदाधीनं नराणां धर्मयोगदः ध्यानं मुख्यं कृदं तत्र तेन सर्वं प्रलभ्यते त्रेतायां चञ्चलं चित्तं धर्मस्य पादहीनदः तपस्तत्र कृतं मुख्यं तेन सर्वं लभेन्नरः द्वापरे देहकष्टं यन्न भवेत्तेन तत्र च मुख्यस्वधर्माचारश्च तेन सर्वं लभेन्नरः कलावासुरभावेन नष्टो धर्मक्रमेण वै तत्र स्मरणमात्रेण नाम्नः सर्वं लभेन्नरः नामस्मरणमार्गे वर्णाश्रमो न च विद्यते संन्यासादिः सदाचारो भवेत्तेना सुरं हदम् कलावासुरबाहुल्यान्नः संन्यासस्य योग्यता चञ्चलं देहचित्तादितेन नष्टो भविष्यति वर्णाश्रमविहीनश्च यो वै भवति निश्चितं तस्य दण्डो न विद्येदा दण्डीवेदेश कथ्यते ज्ञानदण्डपरित्यागात् स्वयं योगी भवेन्नरः निषेधविधिहीनश्च स्वेच्छाधर्मपरो भवेद कर्तव्यं यदि तेनापि वेदेषु विधृतं भवेद तदा विधिसमायुक्तो जन्तुर्भवति निश्चितं किञ्चिन्न तेन कर्तव्यं यदा वेदे प्रकीर्तितं तदा निषेधसंयुक्तो नरो भवति मानदा अदो विधिनिषेधाभ्यां हीनो योगी प्रकीर्तिदः तेनाचरित आचारस एवं तस्य योगदः अदो योगी महाभाग महाभागदण्डहीनः प्रकीर्तिदः वर्णाश्रमविहीनः स ब्रह्मभूतः प्रचायते स विनायकनाम वैनायकैर्वर्जितस्वयं योगीतेन समाख्याद सर्वेषां नायको भवेद् ब्रह्मणि ब्रह्मभूतश्चेज्जातो योगस्य सेवया यदि वर्णाश्रमे संस्तो भवदि स्वेच्छया मुने लोकसङ्ग्रहणार्थं स नित्यं धर्मं समाचरेद निःस्पृहो धर्मभोगार्थे मदं तदपि तादृशं एतदाश्रममार्गश्च कथितस्ते महामुने मायया रचितं सर्वं जानीहि भ्रमणात्मकम् ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे तृतीये खण्डे महोदरचरिते आश्रमधर्मवर्णनं नाम एकोनविंशतितमोऽध्यायः ओम्